आकाशवाणी झा प्रथम प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना स्वामित्व योजनाया अन्तर्गतं सम्पत्ति पत्रकाणां वितरणाभियानं गतदिवसे दृश्य श्रव्य प्रणालिकया समारब्धम् भारतीय जनता पार्टीति दलेन बिहार बिहार विधानसभा निर्वाचनानां द्वितीय चरणार्थं षट्चत्वारिंशत् प्रत्याशिनां नामसूची गतदिवस प्रकाशिता बिड् निर्वाचनम् देश कोविड ऊनविंशति महामारीत अद्यावधि स्वस्थताम्पगतानां जनानां प्रतिशतता प्रवर्ध्य सम्प्रति षडशीति दशमलव एक सप्त परिमिता संवृत्ता सूच्यतार केन्द्रीय पर्यावरणमन्त्री प्रकाशजावडेकर समसूचयत् यत् भारतस्य अष्टभ्य सामुद्रिक तटेभ्य प्रतिष्ठास्पदम् अन्ताराष्ट्रिय ब्लू फ्लैग प्रमाणपत्रं प्रदत्तम् स्वामित्व प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना स्वामित्व श्री अन्तर्गतं सम्पत्ति पत्रकाणां अंतर्गतं गतदिवसे दृश्य श्रव्य प्रणालिकया समारब्धमं अवसरेऽस्मिन् एतद्योजनाया लाभार्थिनो जनान् वर्धापयन् श्रीमोदी न्यगादीत् यदेतत् सम्पत्ति पत्र प्राप्त्या सहैव ग्रामीणजना स्वीयावास भवनानां विधिसम्मता स्वामिन सम्पत्स्यन्ते तदाधारेण बैंकेभ्य ऋणादान समेतानि सकलानि वित्तीय सौविध्य जातानि च प्रभविष्यन्ति प्रधानमन्त्री स्पष्टमकरोत् यत् प्रशासनस्य अनेन पदक्रमेण देशे सम्पत्तीनाम् अवैधं अधिग्रहणम् अपि सुतरां प्रतिरुद्धं भविता श्रीमोदिना हर्ष प्रकाशितः यदेतत् सम्पत्ति पत्रकाणां भारतं व्याजेन दिशि भूयोप्येकं महत्वाधायिनं पदक्रमं व्यदधात् बिहार भारतीय जनता पार्टीति दलेना बिहार विधानसभा निर्वाचनानां द्वितीय चरणार्थं षट्चत्वारिंशत् प्रत्याशिनां नामसूची गतदिवसे प्रकाशिता दलेन राज्यस्य मन्त्री नन्दकिशोर यादव पटनासाहिब क्षेत्रात् वर्तमान विधायक नितिन नबीनश्च बांकीप्रक्षेत्रात् निर्वाचनाङ्गणे अवतारितौ स्तः एवमेव पूर्व ओमप्रकाश यादव सिवानत नीतीशमिश्रश्च झंझारपुरतो निर्वाचनं सम्मुखीकरिष्यतः ह्यो नवदिल्ल्यां सम्पन्ने भाजपादलस्य केन्द्रीय नैर्वाचनिक के समिते मन्त्रणोपवेशने एषाम् अभ्यर्थिनां नामानि अन्त्यरूपेण निर्णीतानि नाम एभ्य सर्वेभ्योपि षट्चत्वारिंशत् आसनेभ्य तत्र प्रदेशे मतदानानि द्वितीये नैर्वाचनिक चरणे आगामिनो नोवेम्बर मासस्य तृतीये दिनांके समायोज्यानि विद्यन्ते कोविड देश कोविड ऊनविंशति महामारीत अद्यावधि स्वस्थताम् उपगतानां जनानां प्रतिशतता प्रवर्ध्य सम्प्रति षडशीति दशमलव एक सप्त परिमिता संवृत्ता सूच्यता एतदनुसारि अत्र पादोनैक षष्टि लक्षाधिका जना हा। इदानीं यावत् संक्रमणाद् मुक्ताह। केन्द्रीय स्वास्थ्यमन्त्रालयो विज्ञापयति यद्यावधि अशेषेऽपि जगति कोरोनात स्वस्थीभूतानां जनानां तारतम्य दृशा भारतं वैश्विक्यां मानांक तालिकायां शीर्षण्यं स्थानं भजत अपरतो भारत अनया महामार्या इदानीमपि सार्धाष्ट लक्षाधिका जना संक्रमिता विद्यन्ते सपादाष्ट सहस्राधिका लक्षं जनाश्च कोरोनया अकालं कालकवलिता संजाताः प्रकाश जावडेकर संसूचितवान प्रकाशजावडेकर यत् भारतस्य अष्टभ्यः सामुद्रिक तटेभ्य प्रतिष्ठास्पदम् अन्ताराष्ट्रिय ब्लू फ्लैग प्रमाणपत्रं प्रदत्तमस्ति ह्यः ट्वीट सन्देशद्वारा एतद्विषयिणीं सूचनां प्रकाशयता प्रकाश जावडेकरेण देशस्य कृते एषा तावद् असाधारणी उपलब्धि वर्णिता प्रोक्तं च यद्यावधि केनापि राष्ट्रेण युगपदेव अष्टभ्यस्तटेभ्य उत्कृष्ट पर्यावरणादि स्थितिद्योतकं प्रमाणपत्रमिदं नैवाधिगतम् इति वार्ता